अथ चतुरशीतम् दशकम् क्वचिदथ तपनोपरागकाले पुरि निदधत्कृत महिला वृतः सुतीर्थम् समुपगतोऽसि समन्त पञ्चकाख्यम् बहुतर जनता तत्र त्वमपि पुनन्विनिमज्यतीर्थतोऽयम् द्विज कुल तवखलु वनिता जनैः समेता द्रुपद सुता त्वयि गाढ भक्ति भारा तदुदित भवदाहृति प्रकारैरतिमुदे सममन्य भामिनीभिः तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्यमानयित्वा चिरतर विरहातुराङ्गरेखाः पशुपवधूः सरसम् त्वमन्वयासीः सपदिच चलदीक्षणत्सव प्रमुषित नृद्तना अतिरसरी मुक्त कंचुके पिचय हृदय ते कुचे न्यलैषी रिपुजन कलहन पुनर्मे स मुपगतरयती विबना भूत परे िद्रा गतिवशा अपगतविरहव्यथास्तदाता विरहव्यथास्तदाता रहसि विधाय ददाथ तत्त्वबोधम् परमसुखचिदात्मकोऽहमात्मेत्युदयतु वस्फुटमेव वियोगः किमपि पुरा भवदुद्भवोपदेशैः समभवदमुतः परम् परमसुखैक्यमयी भवद्विचिन्ता मुनिवर दुरितशमाय शुभानि पृच्छ्यमानैः त्वयि सति किमिदम् शुभान्तरैरित्युरुहसितैरपि याजितास्तदासौ वितायमाने प्रमुदित जने, विताय जने सहैव गोपाः यदु जनमहितास्त्रिमास भेजुः व्यपगम समेत्य राधम् दृढमुपगुह्य निरीक्ष्य वीत खेदाम् प्रमुदित हृदयः गदेभ्यः इति चतुरशीतम् दशकम्